श्रीवामनेश्वर प्रसन्नोऽस्तु प्राक्काले विषयोपभोगविरतम् यशम्भुशर्म द्विजम् दत्त्वा वामनरूपदर्शनसुखम् काश्याम् समादिष्टवान् लिङ्गतीर्थजले मदीयसुभगम् यल्लप्स्यसे भूयाच्छंकर वामनेश्वर हर पायाद् विपद्भ्यस्सनः ईशानां परिपालनोद्यतमतिर्विप्रस्वगेऽहं गता लोटल्या विधिपूर्वका च विहिता लिङ्गप्रतिष्ठा मुदा लिङ्गढवल्यातत भूयाच्छङ्कर वामनेश्वर हर पायाद्विपद्भ्यः वरदं स्वमीरणसुतं वन्दामहे नन्दिनं चैशान्यं गुरुदत्तमत्रितनयं ध्यायाम ऊर्जस्विनम् अश्वत्थाद्रुमवासिनः सुरगणा सुप्रार्थिता श्रद्धया भूयाच्छङ्कर वामनेश्वर हर पायाद्विपभ्यः धात्राशस्तु हि कार्तिकेऽथ च मृगे गोपालकालोत्सव आवर्षं विविधा प्रमोदभरिता निर्वाहिताश्च क्षणा भूयाच्छङ्करवामनेश्वर हर पायाद्विपद्यसनः पारम्पर्यवशात् भजन्ति कतिचित् भक्त्या कुलस्वामिनं केचित्पूरितयाचनानि दधती श्रद्धाममुष्मिन्द्रुडां शोकोद्रेकविषण्णमानसनृणं विश्रम्भहेतुर्महान् पूयाच्छङ्कर वामनेश्वर हर सर्वेषां हृदि सौहृदं प्रभवतु स्निग्धा च वाणीमुखे सर्वे सन्तु च वामनेश भजका शुद्धात्मनः सात्त्विका रामोऽयं शमशर्मधर्मसहितो गोमन्तके राजताम् भूयाच्छङ्कर वामनेश्वर हर पायाद्विपद्भ्यः स नः यस्य भुजङ्गमो विषधरो हारायते लीलया गङ्गाजन्नुसुता जटासु विद्रुता चेतोमलस्यापहा वामेयस्य हिमालयस्य तनया बालै निशायापतिम् पूयाच्छङ्कर वामनेश्वर हर पायाद्विपद्भ्यः